मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फिफ्टि दिवो दासमहिमवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच विश्वामित्रस्य भावेन सन्तुष्टो मुनिपुङ्गवः तमुवाचमहायोगी याज्ञवल्क्यो महा महामुनिः याज्ञवल्क्य उवाच दुःखितं त्वां विदित्वाहमागतो मुनिपुङ्गव न कार्यमपरं किञ्चिज्जानीहि त्वं महामदे वद किं कारणं ब्रह्मन् दुःखस्य तव तापस पश्चात् तन्नाशयिष्यामि यो क्रियाज्ञानोपदेशदः विश्वामित्र उवाच तपस्तप्तमयाखोरं ब्रह्मा मेन ददौ वरं वसिष्ठो मां च राजर्षिं जगाद जनसन्निधौ केनोपायेन योगेन्द्रब्राह्मणोऽकं भवामि च सर्वमान्यो महाभागस्तं करिष्यामि यत्नदः ततस्तं मुनिशर्दूलो याज्ञवल्क्य उवाचः न चिन्तां कुरु राजर्षे ब्रह्मर्षिस्त्वं भविष्यसि अभिमानमहाघोरं त्यज त्वं मे सुवाक्यदः मत्सरं त्यज च ततः क्षेमं भविष्यति कथां शृणु महारम्यां काशी विश्वेशसंश्रितां येन त्वं निर्मलो भूत्वा ब्राह्मणोऽपि भविष्यसि काशी विश्वेश्वरेणैव नत्यक्ता प्रलयेऽपि च न वियोगः क्षणं तस्या काश्या शम्भो कदचन तेनाहकार संयुक्त जातौ काशीमह विघ्न सवन प्रवक मुद्द उवाच याज्ञवल्यवच्रुवा हर्षिधशिगो मुन उवाच प्रेम प्रेमयुक्न चेदसा। विश्वाम उवाच कीद विघ्नूपच् शिव सेभाग तद विशेषद याज्ञवल्य उवाच ष्टिवर्षा पर्जन्यो नव वर्ष महीतले तेन नष्टं जगत् सर्वं भूमिस्थं सचराचरम् प्रजाक्षयं ततो दृष्ट्वा ब्रह्मा लोकपितामहः आययौ राजशार्दूलं दिवो दासं राज्यं त्यक्त्वा स परमं तपः मोक्षार्थं भक्तिभावेन सूर्यवंशसमुद्भवः तपसा योगभावेन बभौ सूर्य इवापरः तं स्वयमे वेदं वचनं प्रजगादः ब्रह्मोवाच महाभाग मे वचनं हितं काशीराज्यं गृहाणत्वं मै दत्म महाम ब्रण सवाचाथ परिपालये मोक्षार्थी मोक्षा वास्ना देहि प्रजापते तं पुनः प्रत्युवाचेद ब्रह्मा लोकहिताय चुराराज्य महाभाग मा दत्त महामतेज्य वृष्टिर्भविष्य महादुता लोक लोकनाश सै कुरु वचो महत महतोकरक्षणा दयायुक्त महामति राज्य जग्राह देवानामकिलं देवाखिराज्यम सदा वर्तते स्वर्गेश वै पृथिव्यादे नागरक्षसाम् अदो देवतया शंभुम पूजय मानद सर्वैः स्वधर्मे स्थातव्यं मयिराज्यं प्रशासदि तदेदि तमुवाचाथ ब्रह्मालोकपितामहः काशीराज्यं ददौ तस्मै दिवो दासाय धीमदे ततो ब्रह्माय यौ काश्यां शङ्करं प्रणिपत्य उवाच तं विशेषज्ञो मन्दरं गच्छ शङ्कर मरीचिना तपस्तेपे तस्मै देहि वरं शिव नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः देवर्षिगणसंयुक्तो वरार्थम् ब्राह्मणस्य च तं दृष्ट्वेदि वरं ब्रूहि शिवो वचनमब्रवीद स उवाच शिवं तत्र मुक्तिम् देहि सदा शिव इत्युक्त्वा तपस्व दुःखाजहौ प्राणान्महामुनिः प्राप्त शिवस्य सारूप्यम् कैलासं स गदो मुनिः एतस्मिन्नन्तरे शम्भुम् ब्रह्मोवाच कृताञ्जलिः वसत्त्वमन्तरे शम्भो त्यज काशीम् महापुरीम् अनावृष्टिभवम् दुःखम् तन्निवृत्त्यर्थमादराद राज्यम् दत्तं मया देव दिवो दासाय शङ्कर तेनापि कधिदं देवराज्यं पृथ्व्यां न चेद्भवेद् तदा राज्यं करिष्यामि नान्यथाहं कदाचन मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि क्षमस्व चापराधं मे महादेव नमोऽस्तु ते तथेदि शिव उचेतं निःश्वस्य परमं प्रभुः पार्वत्या गणसंयुक्त उवासस च मन्तरे अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम अधुना मुक्तदाघेन कर्मणा भविता मम न ब्रह्मणो वजो मिथ्या भविष्यदिकदाचन अधुना किं करिष्यामि काशीविरहदुःखितः अहं विश्वेश्वरस्वास्मि मदधीनं न किञ्चन विश्वनाधेदिनामेदं व्यर्थरूपं न संशयः अखिलप्राणितुल्योऽकम् क्रुतो येन महात्मना शरणं विघ्नराजं तं गच्छामि न च संशयः ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् अहङ्कारविहीनोऽहं कृतस्तेन महात्मना इत्येवं निश्चयं कृत्वा शिवस्तत्राचलेतपः ततापगणपं ध्यात्वा काशीप्राप्त्यर्थमादराद काशी, काशी च दुःखसंयुक्ता श्रुत्वा शम्भोर्विनिर्गतिं तपस्ततापविघ्नेशं ध्यात्वा निश्चलचेतसा अहङ्कारविनिर्मुक्ता काशी दुःखितमानसा शिवप्राप्त्यर्थमधुलं तदाप परमं तपः दिवो दासस्तु तद्राज्यमकरोद्धर्मदस्वयं तदो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका सकलं वृष्टियोगेन जगस्तावरजङ्गमं मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति स्वस्वधर्मरता सर्वे वर्णाश्रमविभागशः पापलेशो न तत्रासी तस्मिन् राज्यं प्रशास्यति हृष्टपुष्टजना सर्वे वृक्षापुष्पफलान्विदाः खडदुग्धास्तदा गावस्तस्मिन् राज्यं प्रशासति स्वाहा स्वधायुधा देवाः पितरश्च मुदा युधाः यज्ञादयो तस्मिन् राज्यं प्रशासति एवं नानाविधैर्भोगैर्युधा सर्वे महामुने दिवो दासस्वयं राजा नित्ययात्रां चकारः आदौ ढुण्ढिं पुपूजासौ पश्चाद्विश्वेश्वरं मुने जगदम्बां च काशीं वै मणिकार्णिं ततः परं भागीरथीं माधवं च जयगीर्षव्यगुहां तदः कालभैरवमेवं च दण्डपाणिं महाबलं। जनैः समदिमान् राजा कारयामास सर्वदा धर्महीनं जनं हन्तुं दण्डपाणिरिव स्थितः अशीतिवर्षसाहस्रं गदं तत्र महामुने न किञ्चित् स्वल्पपापस्य प्रवेशोऽपि बभूवः ततो देवा विचारन्ते चक्रुस्वर्गेषु विस्मिताः पृथिव्यां देवराज्यं तु विनष्टं तेन कारितम् अदो वयं किमर्थं च स्थास्यामः पृथिवीतले स्पर्धते नः स राजर्षेश्चलयामस्तदो वयं तद इन्द्रोऽग्निमाहूय जगादक्रोधसंयुधः दिवो दासस्य राज्ये ते स्थानं मास्तु बहिष्विधि इन्द्रस्य वचनं श्रुत्वा वह्निरन्दर्दधे तदा जना सर्वे पृथिव्या वहीस्ते जमुो दास वहूपेन संस्थ पृथिव्या तपो बलसमन्वितः बल नाविधर्भा क्रण च गता स्वयं राजा तूपरो बौवायदिूप रूपमास्थाय सराजा देवृत्यद पृथिव्या ये जना जनसर्वे नद जानी कौशिकं बहौ गते काले देवा सर्वे विस्म देवकृत्यम् कृतम् सर्वम् राज्ञाप्याश्चर्यमुत्तमम् तदो देवगणा सर्वे ब्रह्माणम् चरणम् ययुः दिवो दासस्य मोहार्थम् पृथ्वीत्य कृता च निर्जरैः सतपोबलयुक्तस्तु देवानाम् कृत्यमादराद स्वयं देवस्वरूपैस्तैश्चकार परमाद्भुतं वयं विहारहीनाश्च किं कुर्मो वदभो विमो तेषां वचनमाकर्ण्य ब्रह्म प्रोवाच तांस्तदा भवद्भिस्तत्र गन्तव्यं प्रार्थनीयो नराधिपः स दास्यति स्वकं स्थानं देवानां नात्र तदो देवा दासमाययुश्चन्द्रमुख्यकाः तान् दृष्ट्वा सहसोद्धायननाम विनयान्विदः समुद्धाप्य तदो देवास्तुष्टुवुष्टं न राधिवं सोऽपि देवान् प्रत्युष्टावस्वपदानि ददौ तदः स्वयं नरस्वरूपेण चैकदेहेन संस्थितः अग्न्यादयो निजस्थाने देवाः सर्वे सुसंस्थिताः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे कण्डे वक्रतुण्डचरिते दिवो दासमहिमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ओम्